श्रीमद्भागवत् महापुराणं नवस्कन्धं चतुर्विंशोऽध्यायः राजाधिदेवी चैतेषां भगिन्यपञ्चकन्यकाः कुन्ते सख्यु पिताशूरो ह्य पुत्रस्य प्रथा मदात् सापदुर्वाससौ विद्यां देवहूतिं प्रतोषितात् तस्याविर्यपरीक्षार्थम् आजुभावनविं शुचिम् तदैवोपागतं देवं वीक्ष्य विस्मितमानसा प्रत्यार्थं प्रत्युक्ता ये या देव क्षमश्व मे अमोघं दर्शनं देवे आधिष्ये त्वयि चात्मनं यो निर्यथा न दृश्येत कर्ताहं ते सुमध्य इति तस्यां आधाय गर्भं सर्यो दिवं गतः सद्यकुमारः सञ्जे द्वितीययो भास्करः तंसात्यजन्नदीतो विभ्यते त्यच्छाल्लोकश्च बिभ्यते प्रपितामहतामुमाह पाण्डुर्वै सद्यविक्रमः श्रुतदेवां तु कारुषो वृद्धसर्वा समग्रहीत यस्यामभुन्दन्तवक्र ऋषिशब्दोदिते सुतः कैकेयोधिष्ठकेतुश्च सुतकीर्तिम् अविन्दन् सन्तर्जनादियस्तस्य पञ्चाशन् कैकयासुताः राजाधिदेव्यां मा वन्त्यौ जयसेनो जनिष्ठः दमघोषश्चेति राजसुत सर्वसमग्रहीत शशुपालसुतस्तस्याखतिस्तस्य सम्भव देवभागस्य कंसायां चित्रकेतुर्भ्यद्बलौ पंसवत्यां देव सुवीर इषुमा सथा कङ्कायां मानकाज्यात सत्यजेतपुरजितथा सञ्जयो राष्ट्रपाल्यां च वृषुर्मर्षणाम्णादिकान् हरिकेश हिरण्याक्षौसुरभूम्यां च श्यामकः मिश्र केश्यामप्सरषे मृकादीन् वस्तुकस्तथा दक्षपुष्करशालादीन् दुर्वाख्यामृक् सुमित्रार्जुनपालादीं समीका तु सदामिनी कङ्कश्च कर्णिकायाम्बैं धृततामजयावपि पौर्वीरोहिणी भद्रा मदिरा इला देवकी प्रमुखा आसन् पत्न्यानकदुन्दुभे बलं गतं शारणं च दुर्मदं विपुलं ध्रुवं वसुधेवस्तु रोहिण्यां सुभद्रो भद्रवाहश्च दुर्मदो भद्र एव च पौरव्यास्तनियाशे ते भूताद्या द्वादशाभवन् नन्दोपनन्दकृतङ्कशूराद्या मन्मदिरात्मजाः कौसल्याकेशनं तेकम् असूतकुलनन्दनं रोचनाया मतो जाता हस्त इलाया लीलायामुर्वल्कादीं यदुमुभ्या न जी जनत विपृष्टो देवायाम् एं देवायाम् एकानकदुन्दुभे सान्तु देवात्मजा राजन्त्रं प्रतिसुतादयः राजानकल्पवर्षाद्या उपदेवासुतादश वसुहंस सुवंसाद्या श्रीदेवाया सुसरस्वताः देवरक्षितया लब्धा नवचात्र गदादय वसुदेवसुता नष्टा वादशे स देवया पुरुविसृतमुख्यास्तु साक्षाद्धर्मो जीजनन् कीर्तिमन्तं सुषेणं भद्रसेन भद्रसेनमुदारथी ऋतुं सम्मर्दनं भद्रं शङ्कर्षणमहेश्वरम् अष्टमस्तु तयोराशि स्वयमेव हरिः किल सुभद्रा च महाभागात् राजन्तिकामहे यदा यदेहधर्मस्य चयो वृद्धिश्य पाप्मनः तदा तु भगवानेष आत्मानं श्रेते नयस्य न यस्य जन्मनो हेतुकर्मणो वामहीपते आत्ममायां विनेशस्य परस्य द्रष्टुरात्मनः जन्माया चेशितं पुंसा स्थित्योन्पत्यव्यजायहि अनुग्रहस्तन्निर्वृतोरात्मलाभाय चेशते औक्षौहिणीनां पतिभीरसुरे निपलाञ्छनैर्भ आक्रम्यमाणायाम् अभाराय कृतोद्यमः कर्माण्यपरमेयालि मनसापि सुरेश्वरैः सशङ्कर्षणश्चक्रे भगवान् मधुसूदनः कलौ जनिष्यमाणानां दुःखशोकतमोन्तमोनुदम् अनुग्रहाय भक्तानां सुपुण्यं व्यनो व्यतनोदयस यस्मिन् सद्कर्णपिविषये यथस्तीर्थवरे सुखे स्तोताञ्जलिरुपस्प्यस्य धुनुते कर्मवाचनां भोजविष्ण्यन्धकम् अधो सूर्यशै निन्दसार्थकैः श्लाघनीयैः सन् सरस्वत कुरु श्रञ्जय पाण्डवे दिग्धस्मितेक्षितोदारैर्वाक्यैर्विग्रहमलीलयां निलोकं रम्यामाश मृत्या सर्वाङ्गरम्यया यस्याननं मकरकुण्डलं चारुकर्णभ्राग्जत्कपोलसुभगं सविलासहाषम् नित्योत्सवं न चतुं पुरुन्दिभिन्त्यो नार्यो न राष्ट्रमुदिता कुपिता निवेश्च जातो गतपितृगृहामृजमेधितार्थो हत्वारि पुंसनानिकितोरुदार उद्बाद्यतेषु पुरुषकृतभिः समीचे आत्मानमात्मनिगमं प्रथिविरञ्जनेषु दिद्व्या स वै गुरुभरं क्षपयन् कुरुना मन्तं समुद्धकलिनायुतिं भूपचस्व दृष्टाभिधूय विजये जयमुद्विघोष्य प्रोचोद्धवाय च परं सुमगात् सुधाम ते श्रीमद्भागुते महापुराणे वयाशिज्ञां श्राद्धसहस्रायां पारमहंसां सहितायां नं स्कन्धे श्रीसूर्यसोमवंशानुकीर्तरे यद्वंशानुकीर्तनं नाम चतुर्विंशोऽध्यायः इति नवमः स्कन्धः समाप्तः हरिः ओं तस्सत् हरिः ओं